हरि ओम् श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकेय रामायणे युद्धकाण्डे षड्विंशति अधिकशतसमत्सरः हनुमता भरतं प्रति श्रीराम लक्ष्मण सीता कर्तृक वनवास सम्बन्धीनां समेषां वृत्तान्नाम् श्रावणम् बहुनेनाम वर्षाणि गतस्य सुमहद्वनम् कृणोम्यहम् ीतिकरम् मम नाथः स्वीर्तनम् कल्याणी बतगाथेयं लौकिकी प्रतिभाति माम् एते जीवन्तमानन्दो नरम्भी राघवस्य हरिणां च कथम् आसीत् कस्मिन् देशे किमाश्रित्य तत्र माख्या हि पृच्छतः स पृष्ठो राजपुत्रेण भ्रीशान्तमुपरि विश्वितः आचक्षेत सर्वम् रामस्य चरितम् वने यथा प्रव्राजितो रामौ मातुर्दत्तोऽवरोतव यथा च पुत्रशोकेन राजा दशरथो मृतः यथा दूते समानीत पूर्णम् राजगृहात् प्रभो स्व यथा राज्यं न चेत्सितं चित्रकूटगिरिं गत्वा राज्येनामित्रकर्षण निमन्त्रित त्वया भ्राता धर्मम् आचरता सुतां स्थिते न राज्ञो वचने यथा राज्यं विसर्जितम् आर्यस्य पादुके गृह्य यथासि पुनरागतः सर्वम् एतन्महाबाहो यथावद्विदितं तव यि प्रति प्रयाते तु यद्वृत्तम् तन्निबोधमे अपयाते त्वयि तदा समुभ्रान्त परिद्यूनं द्विजम् परिद्यूनम् विवाच्यार्थम् तद्भनं समपद्यत तद् हस्ति मुदितं घोरम् सिंह व्याघ्रमुगाकुलम् प्रविवेशाम् स्वमृ दण्डकावनम् गच्छताम् गहने विनदंसु महानादं। सुमहानादम् विराध प्रत्यदृश्यत तमुत्क्षिप्य महानादम् ऊर्ध्वबाहुम् निखाते परि प्रक्षिपन्ति स्म नदन्तमिव कुञ्जरम् तत् कृत्वा दुष्करम् कर्म भ्रातरौ रामलक्ष्मणो सा या रम्यम् आश्रममे तु शरभङ्गे दिवम् प्राप्ते रामश्च पराक्रमः अभिवाद्य मुनिन् सर्वान् जनस्थानमुपागमयत् पश्चात् चूर्पणखा नाम रामपार्श्वेपागत ततो रामेण सन्दिष्टो लक्ष्मणः सहसोत्थितः प्रगृह्य खड्गम् चिच्छेद कर्णनासं महाबलः चतुर्दशसहस्राणि रक्षसाम् भीमकर्मणाम् हतानि वसता तत्र महात्मन महात्मना एकेन सङ्गम्य रामेण अन्न अन्यचतुर्थभागेन निःशेषा राक्षसा कृता महाबला महावीर्या तपसो विघ्नकारिणः नियता राघवेणाजौ दण्डकारण्यवासिनः राक्षसा च विनिष्पिष्टा करश्च नियतोरणे दूषणं चाग्रतो हत्वा त्रिशिरा तदनन्तरं ततः सेनादृता बाला रावणम् समुपागता रावणानुचरो घोरो मारीचो नाम राक्षसः लोभयामास वैदेहीम् भूत्वा रत्नमयो मृग सा रामम् वैदेही गृह्यतामिति अयम् मनो हरकान्त आशमो भविष्यति ततो रामो धनुष्पाणि भृगं तम् अनुधावति स तं जघानुधावन्तम् श्रेण नत पर्वणा अथ सोम्य दश मृगम् व्याति तु राघवे लक्ष्मणे चापि निष्क्रान्ते प्रविभेशाश्रमम् तदा जग्राहतरसाम् ग्रहखे रोहिणीं विभे त्रातु कामं ततो युद्धे हत्वा गृध्रम् जटायुषम् प्रगृह्य ससासीताम् जगामाशु स राक्षसः तत द्वद्भुत संकाशा सीताम् गृहीत्वा गच्छन्तम् वानर पर्वतोपमः न गुरुषु विस्मिताकारा रावणम् रक्षसाधिपम् ततः शीघ्रतरम् गत्वा तद्विमानम् मनोजवम् अरुह्य सः वैरेह्या पुष्पकम् स महाबलः प्रविवेश रावणो राक्षसेश्वरः ं सुवर्णा शुभे महति वैष्मणि प्रवेश्य मैथिलीं वाक्यै शान्तयामास रावणः तृण्वेद् भाषितं तस्य तं च नैऋतपुङ्गवम् अचिन्तयन्ति वै देहि यशोक एवनिकां गता निवर्तते तदा रामो मृगम् हत्वा दृष्ट्वा गृध्रम् च विव्यथे गुध्रम् हतं तदा दृष्ट्वा राम प्रियतरम् पितुः मार्गपाणस्तु वैदेहीम् राघव सः लक्ष्मणः गोदावरीम् अनुचरन् वनोद्देशान् च पुष्पिताम् आसेदतो महारण्ये कबन्धम् नाम राक्षसम् तथा कबन्ध वचनात् राम सत्यपराक्रमः दृश्यम्भूक गिरिम् गत्वा सुग्रीवेण समागतः तयो समागमः पूर्वम् प्रीत्या हार्दो व्यजायत रात्रा निरस्ता क्रुद्धेन सुग्रीवो वालिना पुरा इतरेतरसंवादात् प्रगाढे प्रणय महाकायम् महाकायम्बलम् सुग्रीवम् स्थापितो राज्ये स्वहित सर्ववानरे रामाय पदि जानीते राजपुत्र्या तु मार्गणम् आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मनः दश कोट्य प्लवङ्गानाम् सर्वा प्रस्थापितादिश तेषां नो विप्रकृष्टानां विञ्जे पर्वत भृशम् चौकाभितप्तानाम् महान् कालोऽवर्तते भ्राता तु गुरुध्रराजस्य सम्पाती नाम वीर्यवान् समाख्याते स्म वसतिम् श्रीतां रावण मन्दिरे सोऽहम् दुःखपरीतानाम् दुःखम् दज्ञातीनाम् च सम्पृतः तत्राहमेका अशोकवनिकाम् गताम् कौशेयवस्त्राम् मलिनाम् निरानन्दाम् दृढव्रताम् तया समेत्य विधिवत् पृष्ट्वा सर्वम् अनिन्दिताम् अभिज्ञानम् मया दत्तम् रामनामाङ्गु गुलीयकम् अभिज्ञानम् मुनिम् लब्ध्वा चरितार्थोऽहमागतः मया च रामस्याकृष्ट कर्मणः अभिज्ञानम् य दत्तम् आचिष्मान् सः महामणिः श्रुत्वा ताम् मैथिलीम् राम त्वाशंसे च जीवितम् जीवितान्तम् अनुप्राप्त पीत्वा मृतमिवातुरः उद्योजयिष्यनुद्योगम् दध्रे लङ्का वधे मनः लोकान्ते सर्वान् लोकान् विभावसु ततः समुद्रमासाद्य नलम् सेतुम् अकारयत् अतरेत् कपिवीराणाम् वाहिनी तेन सेतुना त्रयस्तमवधिलः कुम्भकर्णसुसु लक्ष्मणो रावणसुतम् स्वयम् राम सुरावणम् सश्चक्रेण समागम्य यमेन वरुणेन च महेश्वरे स्वयम् भूम्याम् तथा दश च तैश्च दत्तवर श्रीमाम् ऋषिभिः समागते सुरशिभिश्च काकुस्थो। वरान् देभे परन्तपः स तु दत्तवरप्रीत्या वानरै समागते पुष्पकेण विमानेन कित्किन्धामभ्युपागमयत् तां गङ्गाम् पुनरासाद्य वसन्तं मुनिसन्निधौ अभिघ्नम् पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ततस्त वाक्ये मधुरै हनुमतो निशम्य रुष्टो भरते कृताञ्जलि वाच वाणिं मनस प्रहर्षिणिम् चिरस्य पूर्ण कलुमे मनोरथ वाल्मीकि अधिकारे युद्धकाण्डे अभी कश तो सर्ग है श्री सीताचंद्र अर्पण मस्त